ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं तर्टि नैन् अगस्त्य उवाच अनाद्यनन्दमव्यक्तं व्यक्तानामादिकारणम् आनन्दबोधैकरसं तन्महन्मन्महे महः अश्वाननमहाप्राज्ञवेदवेदान्तवित्तम श्रुतमेदन्महापुण्यं ललिताख्यानमुत्तमम् सर्वपूज्या त्वया प्रोक्ता त्रिपुरा परदेवता पशाङ्कुशधनुर्बाण परिष्कृतचतुर्भुजा तस्या श्रीचक्रं चक्रूषणम् नवावरणमीशानी श्रीपरस्याधिदैवतं काञ्चीपुरे पवित्रेऽस्मिन्महीमण्डलमण्डले केयं विभादिकल्याणी कामाक्षीत्यभिविश्रुता द्विभुजा विविधोल्लास विविधोल्लासविलसतनुवल्लरी अदृष्टपूर्वसौन्दर्या परज्यो दिर्मयी परा सुत उवाच अगस्त्येनैव मुक्तः सन् परानन्दादृदेक्षणः ध्यायंस्तच्च परं तेजोहयग्रीवो महामनाः यदि ध्यात्वा नमस्कृत्य तमगस्त्यमधा ब्रवीद हयग्रीव उवाच रहस्यं सम्प्रवक्ष्यामि लोपामुद्रापदे शृणु आद्यायानुतरा सा स्याच्चित्परात्वादिकारणम् तथा प्रोक्ता स्वरूपा तत्त्वचिन्तकैः त्विदीया ततः शुद्धपराद्विभुजसंयुतां दक्षहस्ते योगमुद्रां वामहस्तेदु पुस्तकं बिभ्रदि हिमकुन्देन्दु मुक्तासमवपुद्युतिः परापरा तृतीया स्याद्बालार्कायुध संमिता सर्वा भरन देशा हस्त भुजा, सर्वाभसंयुक्ता दशहस्तृदाबुज वमोरुस्तस्ता किुभूषण पश्चात चुर्भुजा जाशांगुशेक्षुकोदंड पंचबाण लत्क ललिताशैव कामाक्षी काञ्च्यां व्यक्रिमुपागदा सरस्वती रमा गौर्यस्तामेवाद्यामुपासदे नेत्रद्वयं महेशस्य काशी काञ्चीपुरद्वयं विख्यातं वैष्णवं क्षेत्रं शिव साम्निध्यकारकं काञ्जीक्षेत्रे पुरा धाता सर्वलोक पितामहः श्रीदेवी दर्शनायैव तपस्ते पे सुदुष्करम् आत्मैकध्यानयुक्तस्य तस्य व्रतवतो मुने प्रादुरासीत्पुरो लक्ष्मीः पद्महस्ता परात्परा पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता सिंहासनेश्वरी ख्यादा सर्वलोकैकरक्षिणी तां दृष्ट्वाद्भुतसैन्दर्यां परज्यो धीर्मयीं पराम् आदिलक्ष्मीमिति ख्यादां सर्वेषां हृदये यामाहुस्त्रिपुरामेव ब्रह्मविष्णुवीशमादरं कामाक्षिदिप्रसिद्धां तामस्तौषीत् पुर्मभक्तिमान् ब्रह्मोवाच जय देवि जगन्माद जय त्रिपुरसुन्दरी जय श्रीनाथसहजे जय श्री जय श्रृङ्गारनायिके जय जयेधिकसिद्धेशि जय योगीन्द्रवन्दिते जय जय जगदम्बनित्यरूपे जय जय सन्नदलोकसौख्यदात्री जय जय हेमशैलकीर्तनीये जय जय शङ्करकामवामनेत्री जगज्जन्मस्थितिध्वंस पिधानानुग्रहान्मुहुः या करोति स्वसङ्कल्पात् तस्यै देव्यै नमो नमः वर्णाश्रमाणां साङ्कर्यकारिणः पापिनो जनान् तस्यै देव्यै दृ नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः देव्या याजस्व संवेद्या तस्यै देव्यै नमो नमः रहस्याम्नाय वेदान्तैस्तत्त्वविद्भिर्मुनीश्वरैः परं ब्रह्मेदि याख्याता तस्यैदृ हृदयस्तापि सर्वेषां यानकेनापि दृश्यते ब्रह्मा ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः यद्ध्यान्नैकपरा नित्यं तस्यैदृ यच्चरणभक्ता इन्द्राद्या यदाज्ञामेव बिभ्रति साम्राज्यसम्पदिशायै तस्यैदृ वेदानिश्वसितं यस्या वीक्षितं भूतपञ्चकं स्मितं चराचरं विश्वं तस्यैदृ सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया दत्ते सर्वजनाधारां तस्यैदृ ज्वलत्यग्निस्तपत्यर्के वादोवादि यदाज्ञया ज्ञानशक्तिस्वरूपायै तस्यैद्र। पञ्चविंशतितत्त्वानि माया कञ्चुकपञ्चकं यन्मयं मुनयः प्राहुस्तस्यैदृ शिवशक्तीश्वराश्चैव शुद्धबोधः यदुन्मेष विभेदा स्युस्तस्यैदृ गुरुर्मन्द्रो तथा प्राणाश्च पञ्चथा या विराजधिचिद्रूपा सर्वात्मनात्मा परू श्री विद्युस्मृतावाद तस्दर्शना चर्वाणी यदंगा विदुर्बुदा तय तस् नमो नमाहा। या भादि यासोक मणिमन्त्रौषधात्मना तत्त्वोपदेशरूपायै तस्यैदृ देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा तत्तत्रूपेण याबाधितस्यैदृ हे प्रतिफटाकारा कल्याणगुणशालिनी विश्वोत्तीर्णेधि चाख्यादा तस्यैदृ यदि स्तुत्वा महादेवीं दादा लोकपितामहः भूयो भूयो नमस्कृत्य सहसा शरणं गतः सन्तुष्टा सा तदा देवी ब्रह्माणं प्रेक्ष्य सन्नतं वरदा सर्वलोकानां वृणीष्व वरिशाद्रह्मोवाच भक्तियादर्शन न संशय तथा प्राथिए प्रायो काम इमे भूमौ दु लोकेूठाइमे जान तनुग्रहाय नु्सि ेदि तस्य कामं पूरयामास वेधसः अथ धाता पुनस्तस्या देव्या वासमकल्पयद दे। श्रीदेवी सोदरं नत्वा पुण्डरीकाक्षमच्युतं तत्सान्निध्यं सदा काञ्च्यां प्रार्थयामास चादृदः ततस्तथा करिष्यामीत्यब्रवीत्तं जनार्दनः अध तुष्टो जगद्धादा पुनप्राह महेश्वरीं शिवोऽप्यत्रैव सान्निध्यं तव प्रीत्या करोत्विति अध्री त्रिपुरा दक्षभागात् कामेश्वरः परः ईशानसर्वविद्यानाम् ईश्वरसर्वदेहिनाम् आविरासीन् महादेवसाक्षात् शृङ्गारनायकः ततः पुनश्रीकामाक्षी बालनेत्रकटाक्षतः काचित् बाला प्रादुरासीन् महागौरा महोज्वला सर्वशृङ्गारवेषाढ्या महालावण्यसेवधिः अथ श्रीपुण्डरीकाक्षो ब्रह्मणा सह सादरम् कारयामासकल्याणमादिस्त्रीपुंसयोस्तयोः आखंडलादयो देवा वसुरुद्रादिदेवताः मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः योगीन्द्राः सनकाद्याश्च नारदाद्यास्सुरर्षयः वामदेवप्रभृतयो जीवन्मुक्ता शुकादयः यक्षकिन्नरगन्धर्वसिद्धविद्याधरोरगाः गणाग्रणेर्महास्ता दुर्गाद्याश्चैव मातरः या यास्तु देवता प्रोक्तास्ताः भद्रासनविमानस्थाने मुप्राञ्चलयस्तदा मनसा निर्मिदं धात्रा मध्ये नगरमद्भुतं मन्दिरं परमेशान्यां मनोहरतमं शुभं श्रीमदा वासुदेवेन सोदरेम महेश्वरः तत्रोदवोटदां गौरीमुपाग्निभगवान् भवः देवदुन्दुभयो नेधुः पुष्पवृष्टिः पपातः दम्पत्योर्जगदम्पत्यो पाणिग्रहणमङ्गलं को कोवा वर्णयितुं शक्तो यदि जिह्वा सहस्रवान् आदिश्रीमन्दिरस्यास्य वायुभागे महे शितुः विस्तृतं भुवनश्रेष्ठं कल्पितं परमेष्टिना श्रीगृहस्याग्निभागे तु विचित्रं विष्णुमन्दिरं युद्धं दा देवतास्तत्र तिस्रसन्निहिता सदा तदा प्रदक्षिणीकृत्य तत्परौ दम्पती तुतौ प्राप्तौ सभावनागारं तदा विधिजनार्दनौ समागम्यज सभ्यानां समास्थानां यथाविधि संस्कारं वैदिकैर्मन्ध्रैः कथयामासदुर्मुदा आद्यादिलक्ष्मी सर्वेषां पुरदश्रीपरेश्वरी विरञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षद का नाम, नाम प्रादुर्भूदे प्रभा पुञ्जे इवस्तिदे इव स्थिते श्रीदेवतानमच्छीर्षबद्धाञ्जलिपुडावुभौ जयकामाक्षी कामाक्षीत्युचतुस्तां प्रणे मधुः मूर्ते च गङ्गायमुने तत्र सेवार्थमागदे तिस्रकोट्योऽर्थकोटी च या यास्तीर्थाधिदेवताः सेवार्थं त्रिपुराम्बा यास्तास्ता सर्वा तदा काराभ्यामादाय चामरे भारती श्रियौ श्रीदेविमुपतस्तादे वीजयन्त्यौ यथोचितम् अनर्घ्यरत्नखचितङ्गिणीचित दोर्लधे आदिश्रीनयनोत्पन्ने ते उभे भारधीश्रियौ संवीक्ष्य सर्वजनता विशेषेण विसिस्मि ये तदा प्रभृति कल्याणी कमाक्षीत्यभिधामियाद तदुच्चारणमात्रेण श्रीदेवी शम्प्रयच्छति आमाक्षी कामाक्षीदित्रयो वर्णा सर्वमङ्गलहेतवः अथ सा जगदीशानी वेदवेदाङ्गपारगे विधौ नित्यं निषीदेधि सन्धिदेशसरस्वतीं सापि वाणीश्वरी गङ्गा हस्तनिक्षिप्त चामरा पश्यतां सर्वदेवानां विधा दुर्मुखमाविशत संदिष्टा तुष्टया तथा यथोचितनिवासाय विष्णोर्वक्षस्थलं मुदा तदाज्ञां शिरसा धृत्वा रमा विष्णुश्च भक्तितः तावु भौ दम्पती न प्रार्थयामास दुर्भूयस्तदावरणदेवताम् तथा स्त्विति वरं त्रिपुरसुन्दरं तदा वर्णदेवत्वं प्राप्तौ पद्माच्युतौ तदा स्वपीठोत्तरमास्ताप्य दक्षिणे स्थितवान् अधोवाच महागौरीं त्वमन्यद्रुवमाचर तत्र यादौ महागौर्या प्रतिबिम्बो चकासद्दिव्यदेहेन महागौरीसमाकृतिः तरुणारुणराजाभसैन्दर्यचरणद्वयः क्वणत्कङ्कणमञ्जीर तित्तिरीकृतपीठकः विद्युदुल्लासितस्वानमनोज्ञमणिमेखलः रत्नकङ्कणकेयूर विराजितभुजद्वयः मध्येन मुक्ता वैधुर्यमाब्धवरबंधन विभ्राजमा मध्यन वलिशो जाहवी सरिदर्त शोभिना विभूषि पाड़ीरपकर्पूरकुंकुमस्तन आमुक्त विनोदेन आ मुक्त मुक्तालुरस्तन कड़ीदेश लंबानुशृंखल मणिक्य सकब्ध मुद्रिकालबुजस्निग्धोज्वल मनोहर है आभात्या प्रपदिनश्रग् दिव्याकल्पकदम्भकैः दीप्तभूषणरत्नांशु राजिराजितदिग्मुखः तप्त हाटक संलोक्तरत्नग्रीभोपशोभितः माङ्गल्यसूत्ररत्नांशु शोणिमाधरकन्धरः पालीव तं समाणिक्य ताडङ्गपरिभूषितः जपाविद्रुमलावण्यललिताधरपल्लवः दाडिमीफलबीजाभदन्तपङ्क्तिविराजितः मन्दमन्दस्मितोल्लासिकपोलफलकोमलः औपम्य रहिदोदार नासामणिमनोहरः विलसर्तिलपुष्पश्रीविमलोन्नतनासिकः ईषदुन्मेषमधुरनीलोत्पलविलोचनः नवप्रसूनचापश्रीलितभ्रूविकाशकः अर्धेन्दुतुलितो बाले पूर्णेन्दुरुचिरानः सान्द्रसौरभसम्पन्न कस्तूरीतिलकोज्ज्वलः मत्तालिमालाविलसदलकाढ्यमुखाम्बुजः पारिजातप्रसूनस्रग्वाहि धम्मिल्लबन्धनः अत्यर्थरत्नखचितमुकुडाञ्चितमस्तकः सर्वलावण्यवसतिर्भवनं विभ्रमाश्रियः शिवो विष्णुश्च तत्रत्याः समस्ताश्च महाजनाः बिम्बस्य तस्य देव्याश्च अभेदं जगृहुस्तदा अथ तर्हि स्वतन्त्रा प्रविवेशः अग्रतः सर्वदेवानामाश्रयेण प्रपश्यताम् बिम्बं कृत्वात्मना बिम्बे सम्प्रविश्य स्थिताञ्चताम् दृष्ट्वा भूयो नमस्कृत्य पुनः प्रार्थितवान्विधिः पूर्णब्रह्मे महाशक्रे महात्रिपुरसुन्दरि श्रीकामाक्षीदि विख्याते नमस्तोभ्यं दिने दिने किञ्चिद्विज्ञापयाम्यद्य शृणु तत्कृपया मम अत्रैवदु दु महागौर्या श्रीदेवी नित्यकल्याणी नित्यकल्याणि विवाहप्रतिवत्सरं कर्तव्यो जगतामृद्धसेवायै च दिवौकसां भूलोकेऽस्मिन् महादेवी विमूढा जनता अपि तां दृष्ट्वा भक्तितो नत्वा प्रयान्तु परमागतिम् तथेत्याकाशवाण्यादु ददौ तस्य उत्तरं परा विससर्ज च सर्वां स्तान्स्वनिकेतनिवृत्तये तदद्भुततमं शीलं स्मृत्वा स्मृत्वा मुहुर्मुहुः तां नमस्कृत्यते ते सर्वे ततो जग्मुर्यथागतम् पितामहस्तु हृष्टात्मा मुकुन्देन शिवेन च सार्धं श्रीमन्दिरे तत्र मन्द्रोपेतां निवेश्य च आराध्य वैति कैस्तोत्रैः साष्टाङ्गं प्रणनाम सः अथाकाशगिरादेवी ब्रह्माणमिदमब्रवीद विष्णुं शिवं च स्वस्थाने समाधाय समाहितः प्रतिसंवत्सरं तत्र सेवां कुरु दृढाशय स्वयं व्यक्रमिह श्रीशमित्रे शाम्बासमन्वितं श्रीकामगिरिपीठं तु साक्षात् श्रीपुरमध्यगं वामभागे वृदं लक्ष्यं विष्णु नान्यत्र सेविनम् चिदानन्ताकाररूपं सर्वपीठाधिदैवतम् अदृश्य मूर्तिमव्यक्तमादधार यथाविधि श्रीमनोज्ञे सुनक्षत्रे दलानां क्षीरकोरकैः अर्चिष्मद्भिरप्रधृष्यैर्लोकानामभिवृद्धये इदानीं त्वं तदभ्यर्च्य यथाविधि विधे मुदा मण्डलं त्वकिलं कृत्वा निजलोकं हि पालय इत्युक्तो भगवान् ब्रह्मा तथा कृत्वा तदीरितं निक्षिप्य कृदितां देवीं निजं धाम जगामसः इतिते तत्वदक्रोक्तं कामाक्षी शीलमद्भुतं साक्षाद्देव महालक्ष्मीमिमां विद्धि खडोद्भव य इदं शृणुयान् नित्यं यश्चापि प्रयतः पठेत् तस्य भुक्तिश्च मुक्तिश्च करस्था नात्र संशयः बृहस्पतिसमो बुद्ध्या सर्वविद्याधिपोऽ भवद आदिर्नारायण श्रीमान् भगवान् भक्तवत्सलः तपसातोषितः पूर्वं मया चिरकालतः सारूप्यमुक्तिं कृपया दत्त्वा पुत्राय मे प्रभुः महात्रिपुरसुन्दर्या महात्म्यं समुपादिशद ततस्तस्मादहं किञ्चिद्वेत्मि वक्ष्ये न चान्यथा रहस्यमन्त्रं संवक्ष्ये शृणुतं त्वं समाहितः न ब्रह्मा न च विष्णोर्वा या सदाशिवो न जानाति कथं प्राकृत देवताः शिवस्तु सर्वात्मा सच्चिदानन्दविग्रहः अकर्तुमन्यथा कर्तुं कर्तुमस्या अनुग्रहात् सदा कश्चित्तदेवाहं मन्यमानो महेश्वरः तन्मायामोहितो भूत्वा त्वव शवतामगाद दे। शैवकारणमे देशमुत्पत्तौ कश्चिदत्र विशेषोऽस्ति वक्तव्यां चोपितं शृणु ब्रह्मादीनां त्रयाणां च तुरीयस्त्विश्वरप्रभुः चतुर्नामपि सर्वेषामादिकर्ता सदा शिवः सदाशिवः। तद्रहस्यं कथितं तस्याच्छरितमद्भुतं भूय एव प्रवक्ष्यामि सावधानमनाशृणु इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्थ्यसंवादे ललितोपाख्याने एकोनचत्वारिंशोऽध्यायः ओ